एकादशोऽध्यायः डुण्डुभ उवाच सखा बभूव मे पूर्वम् तपो बल समया क्रीडता बाल्ये कृत्वा तार्णम् भुजङ्गमम् अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै लब्ध्वा स तथा वीर्यो भुजंगस्त्वं मम शापाद् भविष्यसि तस्याहम् तपसो वीर्यम् जानन्नासम् तपोधन भृशमुद्विग्नः हृदयस्तमवोचमहम् तदा प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः सखेति सहसेदम् ते नर्मार्थम् वैकृतं मया क्षन्तुमर्हसि मे ब्रह्मन् चापोऽयम् विनिवर्त्यताम् सोऽथ मामब्रवीत् दृष्ट्वा विनिश्वस्य सुसम्भ्रान्तस्तपो धनः नानृतम् वै मया कथञ्चन यत्तु वक्ष्यामि ते वाक्यम् शृणु तन्मे तपो धन श्रुत्वा च हृदि वाक्यमिदमस्तु सदा नघ उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः तम् दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव, सत्वं सत्त्वम् रुरुरिति ख्यातः च स्वरूपम् प्रतिपद्याहमद्य वक्ष्यामि ते हितम् षडौण्डुभम् परित्यज्य रूपम् विप्रश्यभस्तदा स्वरूपम् भास्वरम् भूयः प्रतिपेदे महायशाः इदञ्चोवाच वचनम् रुरुम प्रतिमोजसम् अहिंसा परमो धर्मः सर्व प्राणभृताम् वर तस्मात् प्राणभृतः सर्वान्नहिंस्यात् ब्राह्मणः क्वचित् ब्राह्मणः सौम्य एवेह भवतीति पराश्रुतिः वेद वेदाङ्गविन्नाम सर्वभूता भयप्रदः अहिंसा सत्यवचनम् क्षमा चेति ब्राह्मणस्य परो धर्मो वेदानाम् धारणापि च क्षत्रियस्य हि यो धर्मः स हि दण्ड धारणमुग्रत्वम् प्रजानाम् परिपालनम् तदिदम् क्षत्रियस्यासीत् कर्म वै शृणु मेरुरो जनमे जयस्य यज्ञेऽस्मिन् सर्पाणाम् हिंसनम् पुरा परित्राणञ्च भीतानाम् सर्पाणाम् ब्राह्मणादपि तपो वीर्य बलोपेताद् वेद इति श्री महाभारते आदि पर्वणि पौलोम